श्रीमद्भागवतमहापुराणं पञ्चं स्कन्ध नो नं बतायं भगवानर्थे सुननिष्णातो योषाविन्द्रो यस्य सचिभोमन्त्राय वृत एकान्ततो बृहस्पतितमयन्तिहाय स्वयमुपेन्द्रेणात्मानं मया च तात्मनञ्चाशिशो नो एव तद्दास्यम् अतिगम्भीरं वयसः कालस्य मन्वन्तरपरिवृतं कियल्लोकत्रयमिदं यस्यानुदास्यमेव स्मतीस्मितामह किलव्रेण तु स्वपित्रं यदिता कुतोद्भयं पदं दीयमानं भगवत् परमिति भगवतो परते खलु तस्य महानुभावस्यानुपदमृजितं कथायः को वास्मद्विद परिहेण भगवदनुग्रह उपं जिगमिषतीति तस्यानुचरितम् उपरिष्टाद् विस्तरिष्यते यस्य भगवान् स्वयम् अखिल जगद्गुरुर्नारायणो द्वारि गदापाळीरवतिष्ठते निजलानुकम्पितहृदयो येनाङ्गुष्ठेन पदादशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः ततो धस्तातलातले मयो नाम दानवेन्द्रश्रिमुपुराधिपतिर्भगवता पुरारिणां त्रिलोकीशं त्रिकृष्णा निदग्धं स्वपुरत्रयं तत्प्रसादाल्लब्धं पदो माजापि नामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ततो धस्तान्महातले काद्रवेयाणां च परमां सपार्णां नैकशीर्षां क्रोधवशो नाम गणः कुहकतक्षककालीय सुषेरादिप्रधानमहाभोगवन्तपतद्रिराजाधिपतेः पुरसवाहा दलवरतमद्विजम्मानाः श्वकरद्रापद्य सृहृत्कुटुम्बसङ्गेन क्वचिद्ब्रमद्दा विहरन्ति ततो धस्तादृशातले दयते या दानवापणयो नाम निवासकवचाः काले या हिरण्यपुरवासिन इति विवप्रद्यनीकां वद्या महोजसो महासाहसिनो भगवतः शकललोकानुभावस्य हरेरेव तेजसा प्रतिहतबलाबलेपाम्बिलेशया इव वसन्ति ये वै शर्मयेन्द्रदुद्या वाग्भिर्मन्त्रवर्णाविन्द्राभ्यते ततो धस्तात्पाताले नागलोकपतयो वासुकी प्रमुखा शङ्खकुलिसङ्कुली कुलिकमहाशङ्ख श्वेतधनञ्जयधितराष्ट शङ्खचूडं कम्बलाश्वतरं देवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषामूहवै सहस्रशेषानां पणासु विचरता विरचिता महावं मडयो रोचिष्णवः पातालां विवरतिं विरनिकरं सरोचिसा विधमन्तीति श्रीमद्भागवते महापुराणे आरम्भंसां सहितायां पञ्चमस्कन्दे राह्वादिस्थितिन्दिलस्वर्गमर्यादानिरूपणं नाम चतुर्विंशोऽध्यायः